श्रीमद्भागवत्कथा महात्म्य अथ द्वितीयोऽध्यायः नारद्वाच पृथा के दयसे बाले अहो चिन्तातुरा कथं श्रीकृष्णचरणाम्भोजं स्मरदुःखं गमिष्यति द्रौपदी च परित्राता येन कौरवकस्मलात् कालिता गोपसौन्दर्य कृष्णः क्वापि नो गतः त्वं तु भक्तिप्रिया तस्य सततं प्राणतोऽधिका तया हुतस्तु भगवान् यातिनि च गृहेष्वपि सत्यादि मुक्तिसाधकौ कलौ केवला भक्तिर्ब्रह्मसायुज्यकारिणे यते निश्चित्यचिद्रूपसद्रूपां त्वां ससर्जः परमानन्दचिन्मूर्ति सुन्दरीं कृष्णवल्लभां बध्वाञ्जलिं त्वया पृष्टं किं करोमिति चैकदा तां तदाज्ञापयत् कृष्णो मद्भक्तान् पोषयेति च अङ्गीकृतं त्वया तद्वै प्रसन्नो भूजरिस्तदाम् मुक्तिं दासीं ददौ तुभ्यं ज्ञानवैराग्यकाविमौ पोषणं स्वेन रूपेण वैकुण्ठेन त्वं करोषि च भूमौ भक्तविपोषाय छाया रूपं तया कृतं मुक्तिं ज्ञानं विरक्तिं च सहकृत्वा गता कृतादिद्वापरस्यान्तं महानन्देन संस्थितां कलौ मुक्तिक्षयं प्राप्ता पाखण्डामयपीडितां त्वदाज्ञया गता शीघ्रं लैकुण्ठं पुनरेव सा स्मृता त्वयापि च स्वस्यैव रक्षितौ उपेक्षातकलौ मन्दौ वृद्धौ जातौ श्रुतौ तव तथापि चिन्तां मुञ्च त्वमुपायं चिन्तयाम्यहं कलिनासदृशः कोऽपि युगो नास्ति वरानने तस्मिन् त्वां स्थापयिष्यामि गेहे गेहे जने जने अनर्यधस्मान् तिरस्कृत्य पुरस्कृत्य महोत्सवान् तदानाहं नाहं हरिर्दासो लोके त्वां न प्रवर्तये तदन्विताश्च ये जीवा भविष्यन्ति कलाभिह पापिनोऽपि गमिष्यन्ति निर्भयं कृष्णमन्दिरम् येषां चित्ते वसेद्भक्ति सर्वदा प्रेमरूपिणी न ते पश्यन्ति कीनासं स्वप्नेऽप्यलं स्वप्नेऽप्यमलमृतयः न प्रेतो न पिशाचो वा राक्षसो वा सुरोऽपि वा भक्तियुक्तमनस्कानां स्पर्शनेन प्रभुर्भवेद् न तपोभिर्नवेदैश्च न हरिर्हि साध्यते भक्त्या प्रमाणं तत्र गोपिकाः नृणां जन्मसहस्रेण भक्तौ प्रीतिर्हि जायते कलौ भक्तिकलौ भक्तिर्भक्त्या कृष्णपुरस्थितः भक्तृद्रोहकराये च ते सीदन्ते जगत्त्रये दुर्वासा दुःखमापन्नपुरा भक्तेर्विन्दका अलं वृतैरलं तीर्थैरलं योगैरलं मखैः अलं, अलं, अलं, अलं ज्ञानकथालापैर्भक्तिरेकैव मुक्तिदां श्रुत्वाच इति नारदनिर्णीतं समाहात्म्यं चिरम्य च निशम्य च सा सर्वाङ्गपुष्टिसंयुक्ता वाक्यम वाक्यमब्रवीम् भक्तिर्वाच अहो नारन्धन्योऽसि प्रतिष्ठे मयि निश्च न कचादिन्दुमुञ्चामि चित्ते स्थास्यामि सर्वदा कृपालुना त्वया साधु मद्बाधा ध्वंसिताक्षणात् पुत्रयोश्चेतना नास्ति ततो बोधय बोधय श्रुत्वाच तस्यापचसमाकर्णकारुण्यं नारदो गतः मारे कराग्रेण विमर्दयन् मुखं संयोज्यकर्णान्ते शब्दमुच्चैः समुच्चरन् ज्ञानप्रबुध्यतां शीघ्रं रे वैराग्य प्रबुध्यतां वेदवेदान्तघोषैश्च गीतापाठैर्मुहुर्मुहुः बोध्यमानौ ददा तेन कथञ्चिच्चोत्थितौ बलात् नेत्रैरनवलोकां लोकन्तौ जिम्भन्तौ शालसाबुभौ प्राय प्रायशुष्ककाशसमाङ्गकौ चिच्छामौतौ निरीक्षैव पुनः श्वापपरायणौ दशिश्चिन्तापरो जात किं विधेयं मयेति च अहो निद्रा कथं जाति वृद्धत्वं च महत्तरं चिन्तयन्निति गोविन्दं स्मारयामास भार्गव व्योमवाणी तदैवाभून् मार्षे खिद्यतामिति उद्यमसफलस्तेयं भविष्यति न संशयः एतदर्थं तु सत्कर्मसुरसे त्वं समाचर तत् ते कर्माभिधास्यन्ति साधवसाधुभूषणाः सत्कर्मणि कृते तस्मिन् सनिद्रा वृद्धतानयोः गमिष्यति क्षणाद्भक्ति सर्वतः प्रसरिष्यति इत्याकाशव च स्पष्टं तस्सर्वैरपि विश्रुतं नारदो विस्मयं लेभे नेदं ज्ञातमिति ब्रुवन् नारद्वाच अनयाकाशवाण्यापि गोप्यत्वेन विरूपितं किं वा तत्साधनं कार्यं येन कार्यं भवेत्तयोः कविष्यन्ति का सन्तस्ते कथं दास्यन्ति साधनं मयाऽत्र किं प्रकर्तव्यं यदुक्तं व्योमभाषया श्रुत्वाच तत्र द्वावपि संस्थाप्य निर्गतो नारदो मुनिः तीर्थं तीर्थं विनिष्क्रम्य पृच्छन् मार्गे मुनीश्वरान् वृत्तान्तः श्रूयते सर्वैः किञ्चिन्निश्चित्यनोच्यते असाध्यं केचन प्रोचुर्दुर्गेयमिति चापरे नूकीभूतास्थान्ये तु क्रियन्तस्तु पलायिताः हाहाकारो महानाशित्रैलोके विस्मयावः वेदवेदान्तघोषैश्च गीतापाठैर्विबोधितं भक्तिज्ञानविरागानां नोदतिष्ठत्रिकं यदाम् उपायो न परोस्ति कर्णे कर्णे जपञ्जनाः योगिना नारदेनापि स्वयं न ज्ञायते तु तत्कथं शक्यते वक्तुर्मितरैरिह मानुषैः एवं ऋषिगणैः पृष्टैर्निर्नियोक्तं दुरासदम् ततश्चिन्तातुरसोऽथ बदरीवनमागतः तपश्च चात्रेति तत् कृतनिश्चयः तावद्दर्शन् तावद् ददर्श कोटिसूर्यसमाभासानुवाच मुनिसत्तमः नारद्वाच इदानीं भूरिभाग्येन भवद्भि सङ्गमो भवन् कुमाराब्रुवतां शीघ्रं कृपां कृत्वा ममोपरि भवन्तो योगिनः सर्वे बुद्धिमन्तो बहुश्रुताः पञ्चहायनसंयुक्ता पूर्वेषामपि पूर्वजाः निलया तदा वैकुण्ठनिलया हरिकीर्तनतत्पराः नीलामृतरसोन्मत्ताः कथामात्रैकजीविनः हरेशरण्यमेवं हि नित्यं येषां मुखे वचः अतः कालसमादिष्टा जरा युष्मान्न बाध्यते येषां भ्रूभङ्गमात्रेण द्वारपालौ हरे पुरा भूमौ निपतितौ सद्यो यत्कृपात् परं गतौ अहोभाग्यस्थ्योगेन दर्शनं भवतामिह अनुग्रहस्तु कर्तव्यो मयि दीने दयापरै अशरीरगिरोक्तं यत्तक्तिं साधनमुच्यतम् अनुष्ठेयं कथं तावन् प्रब्रुवन्तो सविस्तरम् भक्तिज्ञानविरागानां सुखमुत्पद्यते कथं स्थापनं सर्ववर्णेषु प्रेमपूर्वं प्रयत्नतः